ओगुस्ट् महोदय भवान् आरम्भं करोति वा सरस्वती वन्दनयामस्तुभ्यं वरदेकामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा श्रीगुरुभ्यो नमः हरि ओम् आरम्भं कुर्मः अद्य दिन गीताजयन्ती इति अस्ति अद्य दिनस्य विशेषता तत्र दिनाङ्कः डिसेम्बर् मासस्य एकादशः दिनाङ्कः शुक्रवारः शुक्रवासर डिसेम्बर् मासस्य एकादशदिनाङ्कः परन्तु तत्र किम् उच्यते मार्गशीर्षमासस्य शुक्लपक्षस्य एकादशीतिथिः इति उच्यते मार्गशीर्षमासस्य शुक्लपक्षस्य एकादशी तिथिः गीताजयन्ती एक इति नाम्ना पश्यतु वयं सर्वे जानीमः तत्र महाभारतं महाभारतं नामना एकः ग्रन्थः अस्ति महाभारतं तत्र किमस्ति प्राचीनभारतीयसाहित्ये विषये तत्र साहित्ये तत् इतिहासरूपेण प्रसिद्धः एषः ग्रन्थः केन रचितं कोऽपि जानति रचितं सत्यं सम्यक् तत्र भीष्म भीष्मपर्वणि भीष्मपर्वणि श्रीकृष्णेन अर्जुनाय कृतः उपदेशः अर्जुनाय कृतः उपदेशः तस्य नाम भगवद्गीता इति अस्ति इदानीं नमस्ते नमस्ते नमो नमः अर्जुनाय कृतः उपदेशः इत्युक्ते अस्माकं कृते नास्ति वा कः विचारः ते अपि कृते अपि अस्ति अस्माकं कृते अपि अस्ति अतः अस्माकं कृते अस्ति अतः अद्यदिने दिने दिने एव जातह, दिनेश दिवस गीताजयती जना मे अ एक नाम अस्पशी मोक्षदशी अभी प्रसिद्धा अस्ति वंशदाय कैशिक एकादशी इति वदन्ति वदति किं वदति कैशिक एकादशी आमां कैशिकपुराणं पुराणं भागवद्मध्ये अस्ति किल कैशिकपुराणम् सम्यक् सम्यक् सम्यक् हा तत्र गीतापठनम् अपि प्रचलति अनन्तरं केवलं गीतापठनम् इति न परन्तु तद्नुसारम् आचरणम् इति अर्जुनस्य कृते आवश्यकमस्ती हाँ अर्जुन सेपदेशम रणभूमौ तोक शोक शोकाकुवस्था अर्जुन त्र शोकमोहगृहस्थ अर्जुन तम निव पर अर्जुन निमित्ते, निमित्ते जीवन विषय सन्देश अस् त एषः उपदेशः अस्माकं कृते अपि अस्ति इदानीं सर्वे पश्यामः अत्र ग्रन्थस्य जन्मदिनसमारोहः तत्र विश्वे सर्वेषां सर्वे, सर्वे मन्यन्ते ग्रन्थस्य जन्मदिनसमारोहः अखिलविश्वे एकतमः उत्सवः एव खलु ग्रन्थस्य जन्मदिनसमारोहः अद्यदिने तत्र वयं सर्वे गीताजयन्ती इति रूपेण वयं सर्वे तस्य उत्सवं कुर्मः किञ्चित् आदौ पठनं भवेत् अनन्तरं गीतातः एव एकं श्लोकं स्वीकृत्य तस्य अर्थविषादकरणं सर्वं तत् कुर्मः गतसप्ताहे वयं त्वा प्रत्यय लेप् प्रत्यय सप्ताहद्वयम् अहं मन्ये तत् लेप् अध्ययनं वयं कृतवन्तः इदानीम् इतोपि एकः प्रत्ययः अस्ति तत् कृत्प्रत्ययः एव अस्ति कृत् प्रत्ययः कृत् प्रत्यय कृत् प्रत्ययतिङ्प्रत्ययद्वयोः मध्ये भेदः कोऽपि जानाति वा कः भेदः कृत् तिङ्ग् द्वयोः मध्ये कोऽपि अन्विट् कृता कृत्वा वक्तुं शक्नु कृत् तिङ्प्रत्ययस्य सारदातुकं भवति कृत् प्रत्यय आददातुकं भवति एषः भेदः नास्ति भगिनी कृत् प्रत्ययः तिं प्रत्ययः कृत्प्रत्ययं प्रातिपदिकं प्रातिपदिक प्रातिपदिकं प्रातिपदिकं प्रातिपदं कृ तत्र तिङ्प्रत्यय उदाहरणार्थं वदति गच्छति सर्वं तत् कृत् प्रत्ययः एव अस्ति परन्तु नाम कृत् प्रत्यय नामपदम् अस्ति तत्र धातुसाधितविशेषण इति रूपेण तत्र क्रियापदमिति नास्ति टिङ् प्रत्ययेन वयं किं साधयामः टिङ्प्रत्ययेन तत्र इत्युक्ते तत्र वयं दृष्टवन्तः खलु लेप् प्रत्यय अनन्तरं त्वाप्रत्यय अत्र hmm. तुमुन् इति प्रत्यय अद्यदिनस्य विषये अस्ति तुमुन् इति प्रत्ययः तत् hmm. क्रिया एव उपयुज्य धातु एव उपयुज्य वयं साधयामः hmm. hmm. तत्र तुमन्त इति परन्तु तुमन्त क्वा क्त्वा प्रत्ययस्य योजेन क्वान्त ल्यप्प्रत्ययस्य योजनेन ल्यबन्त सर्वे धातुसाधित अव्ययाः सन्ति त्वान्तप्रत्यय गत्वा एतस्य विभिक् विभक् विभक्तिप्रत्ययाः सन्ति वा न अव्ययरूपेण आगच्छति लेप् प्रत्ययस्य आगत्य इति वदामः चेत् तत् अव्ययरूपेण एव नास्ति तथैव तुमन्त तुमन्त इति प्रत्यय अद्यदिने वयं तस्य अध्ययनं कुर्मः तुमन्त इति प्रत्यय एकनिमिषम् तथैव तुमन्त इति प्रत्यय हेत्वर्थक् अव्ययः हेत्वर्थक् अवयवः किन्तु हेतु इत्युक्ते किं हेतुमाने कारणं कारणं कारणं प्रयोजनं कारणं पपस् इति सो so, तुमन्त इति हेत्वर्थक् अव्यय हेत्वर्थक् अहं अहं चलचित्रं द्रष्टुं तत्र गमिष्यामि हेतु मम हेतुः किमस्ति तत्र हेतुः अस्ति हेतुः अस्ति चलचित्रं द्रष्टुं चलचित्रं द्रष्टुम् अस्तु अहं पठितुं विद्यालयं गमिष्यामि अहं प्रक्षालयितुं जलं उपयोजयामि तत् किमर्थं किमर्थं गमिष्यामि किमर्थं गच्छति पठितुं विद्यालयं गच्छति सः पठितुं विद्यालयं गच्छति हेतुः कः तत्र किमर्थम् इति अस्ति एवं सर्वं तत्र आङ्ग्लभाषायां फार् इति वदामः चेत् पर्पस् फार् ड्रिङ्किङ्ग् पातुं फार् रैटिङ्ग् लेखितुम् एवं सर्वम् अहं स्नातुं तरणतलां तरणतालं गच्छामि स्नातुं दातुं प्रष्टुं भाषितुम् इतोपि तत्र जीवितुम् एवं सर्वम् अस्ति किञ्चित् जालपुटे यत् अस्ति तस्य पठनं कुर्मः अनन्तरम् अग्रेसरे <laughs> दृश्यते स्क्रीन् दृश्यते भारतमहोदय भवान् पठति वा न दृश्यते न दृश्यते खलु एकविषये इदानीं स्पष्टं दृश्यते दृश्यते खलु हा दृश्यते ध्वनि अपि सम्यक् अस्ति खलु ध्वनि मम ध्वनि सम्यक् भगिनी ध्वनि सम्यक् अस्ति सम्यक् सम्यक् हा भारत्महोदय भवान् पठति वा सम्भाषणं तत्र सम्भाषणमस्ति माता अस्ति पुत्रः अस्ति माता पुत्रद्वयोः मध्ये सम्भाषणम् अस्ति तद् भारतमहोदयरमणीभगिनी पठति वा okay. एतत् माता रमणीभगिनी भारतमहोदयपुत्रस्य विषये तत् पश् कृते हा पठन्तुन् प्रत्ययः एतत् सम्भाषणं पठत अवगच्छत च माता रमणीभगिनी पुत्र भारतमहोदयः रमणीभगिनी अस्ति वा आं भगिनी आम् अस्ति माता किं वदति पुत्र शीघ्रम् आगच्छतु बहिः गच्छावः आपणं गन्तुम् आस्काप शालापुस्तका क्रेतुम, अग्रिम सप्ताह शाला भवान, किमर्थम खलुम किमर्थम किम शाला गंब गन्तुव्यं, गन्तुव्यं। गन्तव्यं पाठं पठितुं पाठं पठितुं भवान् बुद्धिमान् भवितुम् इच्छति खलु देवालयम् अभिगच्छाव भगवन्तं प्रार्थयितुम् आम् तदनन्तरं पातुं खादितुं च किमपि क्रीणीवः अम्ब अस्तु अस्सा तथा एव कुर्वः अद्य काले क्रीतुम् आगच्छामि इति शिवः उक्तवान् अम्ब तावत्पर्यन्तं गृहम् प्रत्यागन्तुम् शक्नुवः इदानीम् आगच्छतु सम्यक् उत्तमम् तत्र कर्तन्यान् गन्तुं क्रेतुं पठितुं भवितुं प्रार्थयितुं पातुं खादितुं क्रीडितुं प्रत्यागन्तुम् तत् अवधेयमत तत्र तुमन् प्रत्ययान्तशब्दाः सन्ति अवधेयं तत्र कर्तुं गन्तुं क्रेतुं पठितुं भवितुं प्रार्थयितुं पातुं खादितुं क्रीडितुं प्रत्यागन्तुं प्रत्यागन्तुं प्रति आगन्तुम् इति एतेषु शब्देषु तुमुन् इति प्रत्ययः योजितः अस्ति अस्तु एवं तुमुन् प्रत्ययस्य विषयम् इतोपि एकमस्ति अग्रिमे राधा भगिनी पठति वा एकस्यायाः क्रियायाः ततः पठति एकस्याह, एकस्याह क्रियायाह वा यदि अन्या एक क्रिया अपेक्षायाच्छायानिया काचि अपेक्षित क्रियायाह प्रदर्शनाय इति प्रत्यस्य तुमु प्रत्यय यथा यहां चषक स्वीक दुग्ध पिबती राधे पा चशक स्वीक अमस दुग्धपनेच्छा अस् सषक स्वीक अनिया क्रिया कौ अथवा किमतमें प्रश्न से य उतर त्र प्रा तो प्रत्युप चषक स्वीक दुग्ध पा चशको राठि शाला गाक्य ग्रिया पठनोदेशेन अस्ति अतः पठनम् उद्दिष्टक्रिया क्रिया एवम् उद्दिष्टक्रियायाः तुमुन भवति सम्यक् अत्र अर्थः स्पष्टः अस्ति वा हेत्वार्थक् यत् अहम् उक्तवती हेत्वार्थक् अव्ययः इति तुमुन् प्रत्ययान्तशब्दाः किमर्थं चषकम् स्वीकरोति रामः दुग्धम् पातुम् चषकम् स्वीकरोति दुग्धपाने इच्छा अस्ति तद्दुग्धपानम् कथम् करणीयम् चषकेन एव करणीयम् अतः रामः दुग्धम् पातुम् चषकम् स्वीकरोति इति तत्र आगच्छति धन्यवादः अग्रिमे वीणाभगिनी पठति वा तुमन्तरूपाणि तुमुन् तुमुन्नन्तरूपाणि वर्तमानकालः तुमुन्नन्तरूपं पतति पतितुं हसति हसितुं धावति धावितुं पठति पठितुं भवति भवितुं चलति चलितुम् नयति नेतुं लिखति लिखितुम् अस्तु पर्याप्तम् इदानीं वीणा भगिनी तत्र हसितुं नेतुं किञ्चित् वाक्यरचना करोति वा तस्य विषये हसति हसितुं नयति नेतुं तत्र वर्तमानकालट्लकाररूपाणि सन्ति अनन्तरं तुमुन्तप्रत्ययानि रूपाणि अपि वाक्य रचना करोति वा द्वौ वाक्यौ वा भिन्नभिन्नप्रकारेण केवलं हसितुम् अपि स्वीकर्तुं शक्नोति हसितुं वा नेतुं वा तत्र नो चेत् तत्र तुमन्तु सन्ति तेषु वाक्यद्वयं वर्तते तत् पठितुं वा चलति चलितुं वा लेखितुं वा किमपि स्वीकरोतु हा हा भगिनि हा बालकः हसति बालकः हसितुं दूरदर्शनं दर्शति पश्यति हसितु दूरदर्शनं पश्यतु पश्यतु तत्र कामिडि सीरियल् इति वदामः चेत् तत्र हसनम् इति क्रिया हसितुं दूरदर्शनं पश्यति सम्यक् इतोपि एकम् um, पक्षिः mm -hmm. um, पत्रं नयति पक्षिः नेस्ट् अभवत् mm. oh, mm -hmm. पक्षिः गृहं नेत् गृहस्य निर्मा निर् निर्माण निर्माणं <त्यान> निर्माण निर्माणं कृते <क्रिते>, निर्माणं कृते <त्यान> पत्राणि नेतुं डयति पत्राणि नेतुं भ्रमणं करोति वा डयति डयति इत्युक्ते टु फ्लाय नयति नयति इस् टु ब्रिङ्ग् परन्तु पत्राणि पत्राणि नेतुं पत्र पत्राणि पत्रप्राप्त्यर्थम् अत्र तत्र गच्छति खलु वृक्षे वृक्षे डयति तत्र तत्र निवासं करोति तत् हा स्वस्य गृहस्य कृते यथा भवति उक्तवती पत्राणि नेतुम् अत्र तत्र डयति आत्मने परिधातुम् अत्र डयति इति अस्ति योग्यम् योग्यमस्ति अस्तु धन्यवादः भगिनी अग्रिमे धन्यवादः अग्रिमे अजयन्ती भगिनी पठति वा मिलति मेलितुं क्रीणाति क्रेतुं शृणोति श्रोतुं नयति नेतुं करोति कर्तुं गृह्णाति ग्रहीतुं पृच्छति प्रष्टुं पश्यति mm. द्रष्टुं पिबति mm. पातुं ददाति दातुम् उत्तिष्ठति उत्थातितुम् उपविशति उपवेष्टुं वाक्यद्वयं mm. वदतु mm. आं मम अहं मम मित्रं मेलितुम् mm. इच्छामि अहं मम मित्रम् मिलामि मम मित्रः मां मिलति सम्यक् मह्यं अहं कृष्णं द दर्श दर्श द्रष्टुम् इच्छामि अहं कृष्णं दृश्य आगच्छामि पश्यति वदति चेत् मम पुत्री पश्यति पुनः एकवारं वदतु पश्यति विषयस्य पश्यति मम पुत्री कृष्णं पश्यति कृष्णं पश्यति इति द्वितीयान्तपदं तत्र आगच्छति हा अस्तु अस्तु अग्रिमे धन्यवादः अगस्ट् महोदय भवान् पठति वा पाठत पाठत अवगच्छत चा इच्छति शक्नोति च प्रयोगे तु रामनाथः लेखनम् इच्छति लेखितुम् इच्छति माला पठनम् इच्छति माला पठितुम् पठितुम् इच्छति राघवः पानम् इच्छति राघवः पातुम् इच्छति गीता हसनम् इच्छति गीता हसितुम् इच्छति रेषाभाः क्रीडनम् इच्छति रेषाभाः क्रीडितुम् इच्छति लता hmm. गानं आ, गातुं शक्नोति गानं गातुं शक्नोति गातुं गा गा इति धातु अस्ति गा इति तस्य गातुम् इति तुमन्तप्रत्यान्तरूपं लता गानं गातुं शक्नोति इति अस्ति अग्रिमे पठतु राधार्तनं सौ राधा नर्तितुं शक्नोति साहा लता गातुं शक्नोति तद् गानं शब्दस्य योजना कदा न भवति एव हा लता गातुं इत्युक्ते तत्र गीतगायनम् एव भवेत् इति अतः तत्र ब्याकेट् मध्ये दत्तमस्ति तत्र राधा नर्तितुं शक्नोति तत्र नर्तनं करणीयम् इत्युक्ते तत्र नर्तितुम् तत् अध्यार एव अस्ति तत्र अग्रिमे पठतु बालकः बालकः धावनं बालक बा बालकः बाल, बाल, धावितुं शक्नोति धनिकः दानम् धनिकः दातुं शक्नोति शिष्यः श्लोकान् पठनम् श्लोकान् पठितुं शक्नोति शक्नोति पठितुं शक्नोति इति शक्नोति इत्यस्य प्रयोगेण कथं रूपसिद्धिः भवति इति तत् दत्तमस्ति इदानीम् अगस्ट् महोदय भवानेव तत्र लेखितुं क्रीडितुं शब्दान् उपयुज्य वाक्यरचना करोति वा लेखितुं वा क्रीडितुं वाक्यद्वयं शिशुः शिशुः लेखितुं न शक्नोति वा शिशुः बालकः लेखितुं लेखनीं स्वीकरोति लेखितुं लेखनमिच्छति लेखितुं लेखनीं स्वीकरोति अस्तु तत् क्रीडितुं विषये वदति वा छात्राः hmm. uh, मार्गी hmm. छात्राः hmm. hmm. न पुनः एकवारं वदतु छात्राः छात्राः वर्गे क्रीडितुं छात्रः okay. वर्गे क्रीडितुं न शक्नोति सम्यक् वर्गे क्रीडनं न भवति एव वर्गे तु प्रश्नं भवति वर्गे क्रीडितुं न शक्नोति सम्यक् सम्यक् छात्राः क्रीडितुं क्रीडाङ्गणं गच्छन्ति वर्गे क्रीडितुं न शक्नुवन्ति इति छात्राः इति अस्ति खलु छात्राः वर्गे क्रीडितुं न शक्नुवन्ति शक्नोति एकवचनं शक्नुवन्ति बहुवचनान्तरम् अस्तु सम्यक् अस्ति महोदय सम्यक् अस्ति धन्यवादः धन्यवादः इदानीं वयं कुरु कुर्मः तत्र अस्माकं समीपे कहोरात्र वयं किञ्चित् गीताजयन्तीविषये अत्र एव कुर्मः अत्र अनिता भगिनी किं दृश्यते पिक्चर् वीडिङ्ग् इति स्वीकरोतु किं किं दृश्यते अत्र अनिता भगिनी अत्र रथं दृश्र दृश्यते सारथं सारथम् मे बि अर्जुन कृष्णा इतोपि वा अर्जुनम् कृष्णः अर्जुन वा इतोपि कृष्णः अर्जुनं पाठ गीतायाः पाठम् करोति पाठयति उपदेश उपदेशं ददाति इति ददाति इतोपि इतोपि किं किं दृश्यते चित्रे रथं दृश्यते अश्वाः दृश्य दृश्यन्ते गजाः अपि दृश्यन्ते अन्येषां कृते ध्वनिः सम्यक् अस्ति खलु किञ्चित् प्रयत्नं करोतु अनिता भगिनी नो चेत् अन्य कोऽपि वदेत् इतोपि किं किं दृश्यते इति वक्तुं शक्नोति वा रथः तु अस्ति अश्वाः सन्ति तत्र अर्जुनः कृष्णः अस्ति उपरि कः अस्ति अहं न जानामि उपरि दृश्यते अत्र हनुमान् no, अस्ति एव ध्वजः अपि अस्ति तत्र एवं खलु हनुमान् ध्वज इत्युक्ते कपिध्वज तत्र इति अस्ति अस्तु अस्तु भगिनी अस्तु, अस्तु तत्र एकः श्लोकः अस्ति सर्वे शृण्वन्तु हस्तपादपद्मानां सङ्ख्या सुबा हि द्वाविं हस्तपाद संख्या सुभगा ही द्वा विलसंति सप्तर्षा भद्रा मेरुरीवत्त अन रथ से केदास्तना सुभगा तेदास्तना चर शोभंते दिव्यरथ दर्शनं पञ्चानां पृच्छानां मोक्षस्य पदवीं नयेत् इति अस्ति हा तत्र उदाहरणार्थं तत्र किं किम् अस्ति पश्यामः हा एतत् तु चित्रं भगवद्गीताग्रन्थस्य मुखपृष्ठे तत्र प्रायः एकम् एतां सूचकम् इति चित्रम् अस्ति हा किमस्ति यथा अनिताभगिनी उक्तवती रणाङ्गणे स्थितस्य रथस्य दर्शनं भवति तत्र रथः अस्ति अत्र घटकाः के हनुमान अर्जुनः श्रीकृष्णः चत्वार अश्वाः एते सर्वे रथस्य घटकाः इदानीं श्लोककर्ता किं कृतवान् अवयवसङ्ग्रहं कृत्वा अवयवरूपेण तत्र विभाजनं कृतवान् प्रथमे किं वदति तत्र प्रथमं वाक्यमस्ति हस्तपादपद्मानां सङ्ख्या द्वाविं द्वामि द्वाविम् इति सङ्ख्या हस्तपाद हा कथं अर्जुनकृष्ण हनुमान् हस्तपादमिलित्वा अर्जुनस्य हस्तद्वयं श्रीकृष्णस्य हस्तद्वयं हनुमान् हस्तद्वयं मिलित्वा कति हस्ताः सन्ति वदन्तु कोऽपि वदतु तत् अन्यू कृत्वा वदतु मिलित्वा षट् षट् हस्ता षट् षट् अनन्तरं तत्र चत्वारः अश्वाः दृश्यन्ते चत्वारः अश्वः एकैकस्य अश्वस्य कति पादाः चत्वारि अश्वानां कृते कति पादाः षोडश षोडश षोडश हा तत्र षोडशः पादाः षट् कराः षोडश पादाः अस्तु भगिनी एव अत्र अत्र पञ्च अश् अश्वः वा नो न चत्वार एव वन् टु त्री फोर् चत्वार एव अंशाः अश्वः पञ्चर् आर् फैव् आर् फैव् हार्सस् चित्रे पञ्च फैसीस् पञ्च अश्वाः दृश्यन्ते हा भगिनी फैव् हेड्स् 1, 2, 3, 4. अच्छा ओके वन् टु चत्वारः एव भगिनी एवमस्ति वन् टु त्री फोर एव चत्वारः एव भगिनी वन् होर्स् आर् फैस्गिनी कौण्ट् एकनिमिषं पुनः एकवारं पश्यामः तत्र अस्तु अस्तु अस्तु एवं दृश्यते खलु अस्तु तत्र श्लोके चत्वारः अंशः एवम् अश्वाः एवम् उक्तमस्ति किमर्थं तत्र कराणां पादानां मिलित्वा तत्र हस्ताः षट् हस्ताः अनन्तरम् अश्वाः चत्वारः अश्वाः तत् षोडश पादाः षोडशः पादाः मिलित्वा तत्र सङ्ख्या भवति द्वाविंशति षोडश अधिकं षट् तद् द्वाविंशति तथैव श्लोके दत्तमस्ति खलु द्वाविम् इति हस्तपादपद्मानां सङ्ख्या द्वाविम् इति दत्तमस्ति इंचित अवेणं तत्पी चित्रमस्त पशा अनम अग्रिमे वर्गे बदला हाँ अन कितम विलसती सप्त शीर्षा भद्रा नेगिरी वा सप्त शीर्ष शीर्षा सप्तर अश्वा चर अश्वा अन श्रीकृष्ण हनुमान् अर्जुनः एकैकस्य एकैकं शिरः तत्रयः सप्तशिरांशि अनन्तरं किं दत्तमस्ति मेरुगिरिवत् इति अस्ति मेरुगिरिवत् इत्युक्ते तत्र उन्नतता उन्नत् औन्नत्यं दृश्यते तत्र उन्नत् औन्नत्यं दर्श्यते दृश्यते अनन्तरं दर्शनं पञ्चानां पृच्छानां पञ्चानां पृच्छानां मोक्षस्य पदवीं नयेत् इति मोक्षं प्राप्येत् इति पञ्चानां पृच्छानाम् इत्युक्ते तत्र पुनः एकवारं चत्वारः अश्वाः एवं तत्र गृहीतमस्ति श्लोके चत्वारः अश्वाः अतः तत्र चत्वार तस्य पृच्छम् अनन्तरं पञ्चपृच्छं पञ्च इति हनुमतः हनुमतः पञ्चमः तत्पृच्छानि पञ्च तत्र अश्वाः पृच्छधारिणः हनुमान् पुछ्धा, अपि अतः पुच्छानि तत्र पञ्च एवं सर्वं एतस्य दर्शनं कृत्वा श्लोककारः वदति मोक्षस्य पदवीं नयेत् इति अस्ति गीता गीतापठनस्य विषये उपयुक्तः एषः श्लोकः किमर्थं तत् दत्तमस्ति अत्र साम्प्रतकाले अपि गीतायाः उपयुक्तता का इति तस्मिन् विषये एकः तत्र एका कथा वर्तते तत्र किमर्थं गीतायाः उपयोजनं वयं पठामः तत् पश्यामः किं दत्तमस्ति कथे कथायाम् आत्मा अलङ्करणीयः न शलिनं श्याम्लाभगिनी भवती पठति वा अहं वदामि अहं पठति पठामि तद् आत्मा अलङ्कारणीयः न शरीरं कक्षण नृभः आसीत् एकदा तेन पृथक्ष् कक्षण शुकः सम्प्राप्तः तस्मै शुकाय पञ्चरं निर् नु, मन्त्री आज्ञापितः hmm. मन्त्री एकं लोहपक्ष लोहपञ्चरं लोहपञ्चरं कारितवान् hmm. तत् दृष्ट्वा नृपः उक्तवान् इदानीम् अयं शुकः अस्मिन् पञ्चरे स्थापयताम् किन्तु एतत् hmm. पञ्चरम् उत्तमं नास्ति अन्यत् पञ्चरं कारयितव्यम् इति दिनद्वयान्तरं मन्त्री रज रजतनिमित् रजतनिमित्तं पञ्चरम् आनीतवान् तत् पञ्चरं दृष्ट्वा एतत् अपि सुन्दरं नास्ति इतोपि सुन्दरं पञ्चरं पञ्चरं कार्यताम् इति असूचयत् राजा पर्याप्तं पर्याप्तम् अत्र किम् अभवत् नृपः आसीत् शुकः सम्प्राप्तः शुकः इत्युक्ते तोता सम्यक् तत्र शुकाय पञ्जरं निर्मातुं तुमुन् प्रत्यय तेन मन्त्री आज्ञापितः शुकाय पञ्जरं निर्माणं पञ्जरस्य निर्माणं करोतु अतः तत्र निर्मातुम् इति तुमुन् प्रत्यान्तशब्दः पञ्जर पञ्जर इत्युक्ते पञ्जर इति केज् खलु अतः पञ्जर अस्तु भगिनी अनन्तरं मन्त्री किं कृतवान् लोहपञ्जरं कारितवान् कारितवान् लोहपञ्जरं लोह इत्युक्ते सम्यक् इदानीम् अयम् शुकः अस्मिन् पञ्जरे स्थाप्यताम् किन्तु एतत् पञ्जरम् उत्तमम् नास्ति अन्यत् पञ्जरम् कारय कारयितव्यम् इति लोहस्य पञ्जरम् नृपः किम् चिन्तितवान् न न न उत्तमम् नास्ति ना, एतत् पञ्जरम् उत्तमं नास्ति अन्यत् पञ्जरम् कारितवान् दिनद्वयानन्तरं तत्र पञ्ज पञ्जरस्य निर्माणं कृत्वा दिनद्वयानन्तरं मन्त्री रजतनिर्मितं पञ्जरम् आनीतवान् रजत इत्युक्ते लोहस्य मास्तु अस्तु रजतस्य निर्माणं करोमि रजतनिर्माणम् रजतनिर्मितम् पञ्जरम् मन्त्री आनीतवान् पञ्जरम् दृष्ट्वा नृपः वदति एतदपि सुन्दरम् नास्ति इतोऽपि सुन्दरम् पञ्जरम् कार्यताम् इति असूचयत् राजा लोहस्य पञ्जरम् मास्तु रजतस्य पञ्जरम् मास्तु सुन्दरम् पिञ्जरम् भवेत् मम शुकः अस्ति तत् अपि सुन्दरः स्य कृते पञ्जरम् अपि सुन्दरं भवेत् इतोपि सुन्दरं लोहस्य न रजतस्य अपि न इतोपि सुन्दरं पञ्जरं कार्यतां करोतु विधिलिङ्ग इति असूचयत् राजा असूचयत् इति भूतकालरूपम् इदानीं पर्यन्तम् अवगतं वा स्पष्टमस्ति वा सर्वेषाम् अस्ति स्पष्टमस्ति अग्रिमे अस्मिन् अवसरे मन्त्री स्वर्णपञ्चरं निर्माप्य आनीतवान् अस्य कारणार्थं पञ्चदिनानि अपेक्षितानि किन्तु तथापि दृष्ट्वा राधा अव अवदत् भवान् धनव्यनव्ययविषये व्ययविषये चिन्तनम् कृत्वा इतोपि रम्यं पञ्चरं कारयतु इति mm -hmm. मंत्री मन्त्री बहुमूल्यरत्न mm -hmm. सकितं पञ्चरं mm -hmm. कारयित्वा आनयत् तस्य निर्माणया दशदिनानि दशदिनानि अपेक्षितानि अभवत् पर्याप्तं भगिनी अत्र किं दत्तमस्ति अत्र मन्त्री स्वर्णपञ्जरम् आनीतवान् पञ्चदिन पञ्चदिनानन्तरम् आनीतवान् खलु प्रथमं किम् अभवत् शुकः अस्ति लोहपञ्जरं कृतवान् अनन्तरं दिनद्वयानन्तरं रजतपञ्जरम् अनन्तरं पञ्चदिनानन्तरं सुवर्णपद तदा राजा किम् मददद... अवदत् न सन्तोषितवान् मन्त्री ए, ए बहुमूल्यरत्नसकितं पञ्चरम् आनीतवान् परन्तु तस्य राजा किम् अवदत् भगिनि राजा किम् अवदत् मददद... भवान् धनप्रयविषये चिन्तनम् अकृत्वा धनव्ययविषये इत्युक्ते धनव्ययविषये डोण्ट् थिङ्क् अबौट् मणि एक्स्पेन्सिस् विषये धनस्य व्ययः धनव्यय विषये चिन्तनम् अकृत्वा इतोपि रम्यं पञ्जरं मूल्यानि कृपया मूल्यानि मा चिन्तयतु मा चिन्तयतु धनस्य विषये चिन्तनं मास्तु रम्यं पञ्जरम् अतीव पञ्जरं कारयतु अनन्तरं मन्त्री किं कृतवान् भगिनि बहुमूल्यरत्नचकि पञ्जरं कारयित्वा दशदिनात् अनन्तरम् आनीतवान् इदानीं तत्र गण गन, वयं गणनां गणनां कुर्मः तत् प्रथमतः तु लोहपञ्जरम् अनन्तरं दिनद्वयानन्तरं रजतपञ्जरं पञ्चदिनानन्तरं सुवर्णपञ्जरं सप्तदिन अभवत् दिन अनन्तरं रत्नखचितपञ्जरं दशदिनानि सप्तदश सप्तदिनानि अनन्तरम् इतोपि दशदिनानि हा कति दिनानि अभवत् भगिनि दश सप्तदशदिनानि सप्तदशदिनानि हा अस्तु सप्तदि hmm. सप्तदि सप्तदशदिनानन्तरं तत्र अतीवसुन्दरं रत्नखचितपञ्जरम् अस्तु तावत्पर्यन्तं हा तावत्पर्यं स्पष्टमस्ति सर्वेषां स्पष्टमस्ति हा धन्यवादः भगिनि अग्रिमे पठतु भारतमहोदय पठतु किम् अभवत् नृपाय नृपाय नृपः मन्त्री च पञ्च पञ्जरं स्वीकृत्य तत् भवनं गतवन्तौ यस्मिन् भवने सः शुकः लोहपञ्जरे स्थापितः आसीत् तत्र गतवन्तौ तौ नितरां व्यथितौ जातौ यतो हि सः शुकः पञ्जरे एव मृतः आसीत् इदानीं किम् अभवत् महोदय नृपः पञ्जरं बहु अरोचत् नृपः प्रसन्नः पञ्जरं पञ्जरं दृष्ट्वा नृपः प्रसन्नः अनन्तरं नृपः पञ्जरं स्वीकृत्य यत् रत्नखचितं पञ्जरमस्ति तत् स्वीकृत्य तद्भवनं गतवन्तौ यस्मिन् सः शुकः स्थापितः आसीत् तत्र गतवन्तौ तत्र किं दृश्यते तत्र गतवन्तौ तौ नितरां व्यथितौ जातौ पश्यन्तु सर्व अत्र गतवन्तौ तौ व्यथितौ जातौ तत्र द्विवचनान्तरूपाणि सन्ति नृपः अपि अस्ति मन्त्री अपि अस्ति नृपः गतवान् मन्त्री अपि गतवान् अतः द्वयोः मिलित्वा गतवन्तौ अनन्तरं व्यथितौ जातौ नृपः व्यथितः जातः मन्त्री अपि व्यथितः जातः नृपः मन्त्री तौ व्यथितौ जातौ।, जातौ तत्र गतवन्तौ तौ नितरा व्यथितौ जातौ स्पष्टमस्ति भारतमहोदय yes. yes. यतो हि खेदस्य विषयः कः सः पञ्जरः सः सुकः पञ्जरे एव मृतः आसीत् किमभवत् सप्तदश सप्तदशदिनानन्तरम् तत्र सप्तदश दि, दिने तत्र शुकस्य विषये कोऽपि न चिन्तितवान् कोऽपि न चिन्तितवान् पञ्जरस्य विषये तु चिन्ता जाता परन्तु शुकस्य विषये का स्थिति कोऽपि न चिन्तितवान् अस्तु अग्रिमे अपि पठामः तत्र हा धन्यवादः भारतमहोदय हा अग्रिमे अगस्ट् महोदय पठति वा पञ्जरस्य निर्माणे तथा <coughs> पञ्जरस्य निर्मा निर्माणाय पञ्चदशधिकानि यानि दिनानि ज्यायितानि <coughs> <देशु, coughs> <दिनेशु>, तेषु <देशु>, दिनेषु तेषु दिन दिनेषु <coughs> शुकस्य अन्नजलयोः जा, विषये <coughs> पि अवधानं न दत्तम् यतः mm स्वच्छरस्थः -hmm. शुकः प्राणवियोगं प्राप्तवान् आसीत् किमभवत् yeah. तत्र अवश्य kimabhavat pe either sent to totally birds damply mm -hmm. like under uh, the water mm -hmm. uh, is is not given properly to to the to the bird to the parrot amek deinaki mabhavat shukah mrutah प्राणवियोगम् प्राण लैफ़् प्राप्तवान् पञ्जरस्य निर्माणाय पञ्चादिदशाधिकानि सप्तदश एवम् वयम् उक्तवन्तः तत्र पञ्चादशाधिकानि यानि दिनानि व्ययितानि तेषु दिनेशु, तस्य ुकस्य अन्नजलयोः विषये केनापि अवधानं न दत्तम् वदतु मिलितं तस्य विषये कस्य अपि मनसि तत् चिन्ता न आसीदेव किम् भविष्यति शुकस्य अन्न अन्नजलयोः विषये केनापि अवधानम् न दत्तम् शुकः मृतः प्राणवियोगम् प्राप्तवान् आसीत् इदानीम् अतीवमहत्त्वपूर्ण परिचयी अग्रिमे जयन्तीभगिनी पठति वा आम् भगिनी मनुष्याणामपि स्वभावः एतादृशः एव जनाः शरीरस्य शोभावर्धनाय प्रभूतस्य धनस्य व्ययं कुर्वन्ति परम् अन्तः स्थितम् आत्मानं कदापि न अवलोकयन्ति अतः अतः एव जनानां मध्ये मानवता न्यून, न्यून न्यूनी भवति hmm. चेतना म्रियते च म्रियते च दुःखानि कष्टानि च वर्धन्ते hmm. तादृशम् एव सुखस्य सुखस्य दाता सुखस्य तादृशम् एव मनुष्यम् अपि स्वभाव स्वभावेन अपि एतादृशम् अस्ति भेनि एव mm -hmm. जनाः mm -hmm. शरीरस्य रक्षणाय सर्वं कार्यं कुर्वन्ति एव अन्तर् अन्तः यः भगवान् स्थितः परमं परम् आत्मानं कदापि न अवलोकयति अन्तर्यात्वेन mm -hmm. यद् भगवान् अन्तर् तिष्ठति तं mm -hmm. तं कापि का को hmm. वा कोऽपि वा न दृश्यते भगिनी शरीरम् एव रक्षणाय कार्यं कुर्वन्ति अतः hmm. लोके एवं जनानां मध्ये मानवतया न्यूनानि भवन्ति नष्टं भवति मानव नष्टं भवति चैतना चेतना म्रियते चैतन्यमपि hmm. चे, चे, म्रियते Mm -hmm. वर्धन्ते अतः तत् कारणात् दुःखानि कष्टानि अपि वर्धन्ते एव वर। mm -hmm. तत्र जनाः धावन्ति किमर्थं धावन्ति बाह्य बाह्यशरीरस्य <स्था> शोभावर्धनाय बाह्य बाह्यशरीरस्य शरी शोभावर्धनाय mm -hmm. तत्र धनसम्पादनम् आवश्यकं धनस्य व्ययं कुर्वन्ति धनस्य सम्पादनं कुर्वन्ति अनन्तरं व्ययमपि कुर्वन्ति Mm. अंत स्थित आत्मा यदवती उतवती अन्ते mm. से अश्वरे mm. न तस्य पश्य न गंती आत्मा नवलोकय अत mm. तस्य तस् भवति चेतना न नवशिष्य वर्धनं कस्य भवति दुःखस्य वर्धनं कष्टस्य वर्धनं वर्धनम् सम्यक् अस्तु तथा यथा विषयक आत्मा अलङ्करणीयः न शरीरम् आत्मा आत्मानः अलङ्करणीय आत्मानः अलङ्करणीयम् इत्युक्ते तत्र आगच्छति गीतायाः उपयुक्तता गीतायां यः उपदेशः अस्माकं कृते अपि उपदेशस्य उपयुक्तता साम्प्रतकाले अपि अस्ति अतः तत्र गीता जयन्ती अस्तु धन्यवादः राधा भगिनी, भगिनी वदति वा अस् अन्तिमे परिच्छेदे तत् किं दत्तमस्ति वदति वा स्वशब्दैः राधा भगिनी आं भगिनि मनुष्यस्य स्वभावः एतादृशः अस्ति इति वदति जनाः बाह्यशरीरस्य शोभनं कृते धनं सम्पादयति व्या व्यायं करो करोति परन्तु अन्तर आत्मानं अवलोचनं न करोति न करोति तत्कारणं दुःखं कष्टं वर्दन्ते, सदैव तस्य ध्यानमस्ति अन्तरं ध्यानं न करोति ददाति मनुष्यः न ददाति अन्तरङ्गे अन्तरङ्गे स्थितः परमेश्वरः ईश्वरः तस्मिन् विषये कोऽपि चिन्तनं न करोति करो चेतना, चेतना इत्युक्ते तत्र भावना नहीं। वा इति अपि सम्यक् सम्यक् उत्तमवर्गिनी वीणा भगिनी वदति वा स्वशब्दैः किं दत्तमस्ति चेत् हा प्रयत्नं करोमि भगिनि एतस्य कथस्य कथेन अहं एवं दृष्ट्वा दृ एवं पश्यामः आत्मविद्या एव उत्तमं भवति सर्वेषाम् आत्मबु आत्मविद्ये पठितुम् म् इति वक्तुं शक्नोति भवती आत्मज्ञानम् अवलोकनम् अवश्यं नो चेत् किं भवति नो चेत् बाह्येन दुःखं कष्टम् अनुभवन्ते सम्यक् तत्र दुःखं कष्टं तस्य एव वर्धनं भवति सम्यक् उत्तममस्ति इतोपि अनिता भगिनी किञ्चित् वदतिवा वा अनन्तरं वयमेकं श्लोकं पठामः अनिता भगिनी वदतिवा वा कथायाः विषये नास्ति वा तत्र अनिता भगिनी मया स्क्रीन् न दृश्यते वदामि वदतु महोदय नास्ति नास्ति अस्तु हा वदतु भारतमहोदय पश्यन्तु ये ये जनाः इच्छन्ति निश्चयेन वदन्तु हा वदतु भारतमहोदय मनुष्य मनुष्य स्वभावः बाह्यशरीरस्य ऊर्जा व्ययं कुर्वन्ति आत्मानं न चिन्तयति सम्यक् सत्यम् अस्तु माल्टीभगिनी वदति वा भा, माल्टीभगिनी रमणीभगिनी श्यामला भगिनी वदतु भगिनी माल्टीभगिनी वा भा? माल्ति भगिनी वदतु वदतु एते एसां कथायां शुकः पिञ्चरे शुकः शुकस्य स्थिते यथा अस्ति तथा एव मनुष्यस्य मनुष्यः अपि शरीरे मे अस्ति आत्मा मनुष्यस्य आत्मा शरीरे अस्ति मनुष्य स्वभाव स्वभावेन पिञ्जर यदा राजा पिञ्जरस्य विषये एव चिन्तनं करोति तथा एव मनुष्यः शरीरस्य पोषणाय चिन्तनं करोति आत्मप यथा राजा सुखस्य पोषणार्थं न किञ्चित् चिन्तयति तथा एव मनुष्यः आत्मविषये आत्मपोषणार्थं न चिन्तयन्ति आत्मपोषणार्थं मनुष्यः अवश्यं गीत पठनं करणीयं सम्यक् सम्यक् उत्तममस्ति उत्तमं विच उत्तमः हा उत्तमः विचारः भगिनी हा इतोपि रमणी भगिनी वदति वा धन्यवादः भगिनी वदति यथा राजा शुकस्य कृते रत्नपञ्जरं रत्नपञ्जरस्य निर्माणं कृतवान् तथा एव <laughs> मनुष्याणां स्वभावः ते <हा। laughs> शरीरस्य सा बाह्यसौन्दर्यं बाह्यदर्शनं सुन्दरं कर्तुं सुन्दराणि <laughs> वस्त्राणि धारयन्ति <दारें दी। laughs> किन्तु अस्मा अन्तः यः जीवात्मा अस्ति तस्य कृते ध्यानं न करोति अतः कृते सज्जनसर्व उत्तमम् उत्तमः विचारः उत्तमाः विचाराः स्वाध्यायेन सज्जनानां सङ्गति एवं सर्वं गीतायाः पठनम् एवं सर्वम् आवश्यकम् उत्तमं भगिनी उत्तमं श्यामलाभगिनी निवर्तनं करोति वा श्यामलाभगिनी श्यामलाभगिनी शरी मनुष्यानां शरी शरीरं किं भवति वाट् विट् विंक् इट्स् विल् बी बाडि एण्ड् मैण्ड् किं वक्तुम् इच्छति भवती आङ्ग्लभाषां वदति चेत् चलति वदतु किं वक्तुम् इच्छति मनुष्याणां मनुष्याणां गुणः पेरे लैक् पेरेट् बी शुड् नाट् बी गेट् इन् देस् ्टु लर्न् न्यू थिङ्ग्स्ेव् टु लिव् हेपि बै लर्निङ्ग् न्यू थिङ्ग्स् तत्र पुष्ट्यर्थं नूतनः विचाराः अनन्तरं सन्तसङ्गति सज्जनानाम् अनुसरणं तस्य कृते अस्माकं चिन्तनं भवेत् प्रयत्नाः भवेत् इति दत्तमस्ति सम्यक् सम्यक् अस्तु उत्तमं भगिनि तत् अगस्ट् महोदय भवान् इच्छति वा वक्तुम् इच्छति वा भगिनि I I think there is a some, mm -hmm. some kind of analogy between mm -hmm. the nourishment mm -hmm. of the parrot in in the need of the of as a dear mother and I I don't know if I understood it very well mm -hmm. so I I, I will do the text during the, the week okay okay it. okay एकवारं पुनः एकवारं पठनं करोतु अग्रिमे वरगे यदा भवानी इच्छति चेत् पठतु चिन्ता मास्तु अस्तु अत्र इतोपि प्रथमतः तु हा सर्वेषां धन्यवादाः प्रथमतः तु अहम् एकं करोमि तत् किमस्ति चित्रम् अस्ति अत्र तत् पश्यामः मुखपृष्ठस्य चित्रं दृश्यते दृश्यते पत्र हनुमतः हनुमतः दर्शनं न लभ्यते परंतु चर अश्वा चिंत्र श्लोककर्ता तत्र, अच्छा, तत्र अच्छा, दिस् इस् दि करेक्ट् पिक्चर् अस्तु अस्तु इदानीं तत्र एकः अंश अन्तिमः तत् एकं श्लोकमपि स्वीकृत्य वयं वदामः अत्र पश्यन्तु भारतेः जनाः किं वदन्ति भारतीयसंस्कृतेः सारभूतः सारसर्वस्वभूतः भगवद्गीता परन्तु संस्कृतभाषायामस्ति भगवद्गीता अस्माभिः किं करणीयम् शने शने अभ्यासः करणीयम् अभ्यासं करणीयम् यथा कर्तुं शक्यते तथा करणीयम् आत्मानः अलङ्करणीयम् इत्युक्ते शरीरस्य न परन्तु आत्मानः आत्मा अलङ्करणीयः इति कथा तस्य कृते उत्तमाः विचाराः <coughs> उत्तमाः विचाराः स्वाध्यायः अनन्तरं सन्तसज्जने सज्सङ्गति सज्जनानाम् अनुकरणं तत् अस्ति इदानीम् अस्माकं कृते शनैः शनैः गीतायाः पठनं संस्कृतभाषायाः अध्ययनं तत्सर्वम् आवश्यकम् एकं श्लोकमस्ति तत्र अहं स्वीकृतवती तत्र अस्माकं तुमुन् प्रत्ययस्य अपि अध्ययनम् अद्यदिने अभवत् तस्य विषये एव श्लोकः अस्ति ल्ती भगिनी पठति वा पठामि भगिनि स्वधर्ममपि सावेक्ष्य न विकम्प विकम्पितुमर्हसि धर्मार् धर्मार् धर्म्यादि युद्ध युद्धस्तेयो युद्धेयो अन्यत् क्षत्यस्य न विद्यते विद्यते सम्यक् सम्यक् इदानीं विना भगिनि तत्र स्वधर्ममपि तत्र किञ्चित् विग्रहं करोति वा स्वधर्ममपि इत्युक्ते वीणा भगिनी अस्ति वा अस्तु राधा भगिनी तत्र स्वधर्ममपि तत्र विग्रहः कथं भवति इति कोऽपि चिन्तनं तत् अस्ति वा स्वधर्मम् अपि अनन्तरं चावेक्ष्य कथं भवति च अवेक्ष इत्युक्ते अवेक्ष तत्र प्रत्यय वयं पठितवन्तः तत् स्मरति वा गतसप्ताहे वयं पठितवन्तः खलु य अन्तिम लबन्त सम्यक् अनन्तरमस्ति न विकम्पितुं तु सम्यक् सम्यक् तुमन्तप्रत्यय न विकम्पितुं पितुम् अर्हसि अर्हसि इति मध्यमपुरुष एकवचनान्तरूपम् तत्र श्रीकृष्णः वदति अर्जुनं वदति न अर्हसि hmm. तत, हा अनन्तरं तत्र धर्म्याधि इति अस्ति तत् धर्म्यात् हि इति अस्ति अनन्तरं तत्र शब्दः अस्ति तत् तत् युद्धात् श्रेयः अन्यत् क्षत्रियस्य न विद्यते क्षत्रियस्य युद्धात् अन्यत् श्रेयः न विद्यते तत्र विना भगिनी श्रेयः विषये किं वदति भवति श्रेयः इत्युक्ते श्रेयः इत्युक्ते उत्तमम् उत्तमं पुण्यम् uh, उत्तमं सम्यक् uh... huh? तत्र कर्तव्यरूपेण श्रेयः कर... श्रेय uh, uh, उत्तमं, uh, uh... उत्तमं कर्तव्यं कर्तव्यं कस्य uh, उत्तमं कर्तव्यं वदति लोके क्षत्रियस्य क्षत्रियस्य उत्तमं कर्तव्यम् युद्धः भवति हा युद्धः एव युद्धं करणीयम् एवं क्षत्रियस्य कर्तव्य धर्मात् हि तत्र धर्मभावनया युद्धं करणीयम् इति अस्ति तत्र पश्यतु अत्र सन्धिविग्रह कृत एकवारं पठतु विणा भगिनी सन्धिविग्रहं कृतुः वा तत्र ओके okay, य yeah. सर्वधर्मम् अपि च अवेक्ष्य न विकम्पितुम् अर्हसि hmm. धर्म्यात् हि युद्धात् श्रेयः अन्यात् क्षत्रियस्य न विद्यते <coughs> तत्र पश्यन्तु धर्म्यात् युद्धात् अन्यात् पञ्चम्यन्तं पदानि इत्युक्ते बियाण्ड् आल् देट् क्षत्रिय श्रेयः न विद्यते वट् इस् राचस् थिङ्ग् फार् क्षत्रिया युद्धम् एव युद्धम् एव करणीयं फैटिङ्ग् फार् क्षत्रिया फाैटिङ्ग् इस् द ड्यूटीड् बि विकम्पि विकम्पितुम् इत्युक्ते विच्ड् नाट् बि अवाय्डेड् विकम्पितुम् इस् is to, uh -huh. uh -huh. uh -huh. okay, you should not go out of track, whatever duty is allotted to you, that only you have to do, you are over mm here -hmm. you have to fight mm -hmm. so nothing is more welcoming for you at this moment mm -hmm. swadharmam apich avekshya apich avekshya na vigampitum arhasi atra pasyantu sarve swadharmam dharmayukt religion atra bina dharma samprata kale ye dharma santi tase vishay nashti swadharma mityukte kartavya कर्तव्यम् किम् मम किं कर्तव्यमस्ति अवेक्ष इक्षधातु अस्ति तत्र अवैति उपसर्ग इक्षैस्तु सिस्तु अवलोकनं करणीयं तत्र सूक्ष्मतया अवलोकनम् स्वधर्मस्य सूक्ष्मतया अवलोकनम् कृत्वा विकम्पनम् मा भवेत् विकम्पितुम् न अर्हसि धर्माधियुद्धा श्रेयः अन्या क्षत्रियस्य न विद्यते सो इथिकल् ड्यूटि यु केन् से स्वधर्मम् इत्युक्ते इथिकल् ड्यूटि वट् इस् मै ड्यूटि इफ् ऐ एम् अ स्टुडेण्ट् देन् पठनं पठनं करणीयम् पठनमेव करणीयम् इफ् इफ् आम गृहिणी गृहिणी गृहिणी गृहिणी अस्ति चेत् तत्र गृहस्य व्यवस्थापनमेव करणीयम् तत् स्वधर्म इति कर्तव्यबुद्ध्या एव स्वधर्मस्य पालनं भवेत् तस्य अवलोकनं सूक्ष्मतया अवलोकनम् अत्र अवेक्ष तत्र पश्य इति भावनम् इक्ष सूक्ष्मतया भावनात् उपथं वट् इस् मै ड्यूटी एट् लिस् मोमेण्ट् वाट् एवर् हेपन्स् ऐ हेव् टु टेक् मै सो देट् इस् मै ड्यूटी स्वधर्ममपि च अवेक्ष तुम् अर्हति तस्मात् विचलनम् मा भवेत् ओके विकम्पितुम् न अर्हसि धर्म्याथि युद्धात् श्रेयः अन्यात् क्षत्रियस्य न विद्यते इति विचारः अस्ति स्पष्टं वा सर्वेषां कृते स्पष्टमस्ति योग्यमस्ति अस्माकं कृते तत् अस्माकं संस्कृताध्ययनं तत् अस्माकं स्वधर्म भाषायाः अस्माकं भाषायाः स्तरवर्धनम् इति अस्माकं स्वधर्मम् अस्तु अवगतं सर्विनी किमपि वक्तव्यमस्ति इदानीं राधाभगिनी वक्तुमिच्छति वा राधाभगिनी रमणीभगिनी वा अन्यकोऽपि वक्तुमिच्छति गीतायाम् उपदेशम् एवमस्ति स्वस्य धर्म मुख्यम् अस्ति अर्जुनः विषादयोगः जातः सः युद्धं न करिष्यामि इति अवदत् कारणं गीता भगवान् श्रीकृष्ण गीताया उपदेशं दत्तं तस्य धर्म श्रेष्ठ अस्ति इति करणीयं युद्धं करणीयम् अधर्मं नष्टं करणीयम् इति उत्तमम् उत्तमं रमणी भगिनी इतोपि वक्तुं वक्तुमिच्छति रमणी भगिनी वदति वा आमस्मि एकं युद्धभूमौ स्वजनान् दृष्ट्वा पिदामहान् पुत्रा दृष्ट्वा अर्जुनः भीतः अभवत् सः युद्धं कर्तुं तत्समये सः युद्धं कर्तुं न इच्छति सः कृष्णम् अवदत् अहं युद्धं कर्तुं न इच्छति युद्धभूमौ सर्वे अस्माकं बन्धुजनाः अस्ति hmm. अतः उद्धं कर्तुं न इच्छति इति तदेव hmm. समये श्रीकृष्णः अर्जुनं भगवद्गीताम् उपदेशं कृतवान् hmm. अत्र एव भगिनी सम्यक् सम्यक् सम्यक् सर्वेषाम् अम्बिकापतिमहोदय अम्बिकापतिमहोदय श्रूयते कथमस्ति भवान् अहम् अहं सम्यक् अहं विलम्बेन आगच्छति गतमासे भारतदेशे आसीत् भारतदेशे आसीत् वा ऐस्तु ऐस्तु। हां. हाँ, अस्तु अस्तु अस्तु अस्तु क्षम्यतामहं न दृष्टवती एव यदा स्क्रीन्स् शेरिङ्ग् आरम्भन्ते तत्र तस्मिन् समये अहं न द्रष्टुं शक्नोमि अस्तु भवान् किमपि वक्तुम् इच्छति इच्छति चेत् वदतु नो चेत् वयं समापयामः अस्तु इतोपि हा वदतु मल्टिभगिनी वदतु न न श्रूयते भगिनी मम मनसि एकं सम्भ्रमम् अस्ति पृच्छामि वा अहम् अहं ये जनयितुं इच्छामि उद्धावगीते ज्ञातुम् इच्छामि इच्छा इदम् इदम् उद्धावगीते उद्धावगीत कथं आ, उन आ, आ, तत्र भगिनी ममापि अहमपि सम्यक्तया न जानामि किन्तु तत्र एय्ट् वर्जन्स् सन्ति तत्र इत्युक्ते अष्टप्रकारकः तत्र शङ्करगीता अस्ति उद्धवगीता अस्ति इतोपि बहवः सन्ति तत्र रुद्रगीता रुद्रगीतापि तत्र अस्ति तत् सम्यक् दृष्ट्या अहमपि न जानामि उद्भवगीता इत्युक्ते इच्छा भेदी तत् भागवतं अस्ति उद्धवगीता तदपि हित्वा <laughs> एक आत्मज्ञानार्थं बोधनं भवति तत् भागवतं मध्ये अस्ति खलु बेनि भागवतं पठ <laughs> भागवतं न जानामि अहम् परन्तु तत्र भागवतम् इति अस्ति न पठितवती अहम् इदानीं गीता भवति बेनि तदपि तत् अस्तु ओके ओके थ्यागिनी धन्यवादः तत्र सर्वासु गीतासु तत्र आत्मज्ञानम् एवं विषयः अतः तत् अहं कथायाः चयनं कृतवती आत्मालङ्कारणीयम् इति न शरीरमिति बहवः महान् महान् बहवः ऐ मीन् प्रति प्रति एकं प्रति विषन् सपरेट् सपरेट् विषन् दर्शयति तत्त्वज्ञानार्थं दर्शयति भवती भगवद्गी भागवतमध्ये प्रति एक बोधनं चिन्तनं भवति सम्यक् भवति हुँ, थी। हुँ, थी। अस्तु तत्र अस्माकं कृते भगवद्गीता संस्कृतभाषायाम् अस्ति अतः अस्माकमपि संस्कृताध्ययनं सफलं भवतु अनन्तरं भगवान भगवान् गोपालकृष्ण अस्मान् सर्वान् अनुगृह्णातु इति प्रार्थनया विरमामि हा अत्र यत्र योगेश्वरकृष्ण कोऽपि जानाति चेत् वदतु कृपयाश्वरकृतो यत्र पातो धनुरः भगवान् सम्यक् सम्यक् अस्तु हा वदतु सर्वे भवन्तु वदतु वदतु सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ॐ सर्वं श्रीकृष्णार्पणमस्तु शुभमस्तु धन्यवादाः पुनर्मिलामः शुभवादवारम्